शिवशङ्कर न मामि शङ्कर शिवशङ्कर शम्भो हे शिवशङ्कर न मामि शङ्कर शिवशङ्कर शम्भो गे गिरिजापति भवानि शङ्कर भवानी शङ्कर भवानि शङ्कर शिवशङ्कर शम्भो शिवशङ्कर शम्भो शाम